श्रीमद्भागवत् महापुराणं द्वादशस्कन्ध दशमोऽध्यायः श्रीभगवानुवाच वरं मणिस्व नः कामं वरदेशा वयं त्रयः अमोघं दर्शनं येषां मर्तो यद्विन्दते मृतम् ब्राह्मणा साधवशान्तानिषङ्गाभूतवश्चलाः एकान्तभक्तास्मासु सलोकालोकपालास्तान् वन्दन्तर्चत्युपासते अहं च भगवान् ब्रह्मा स्वयं च हरिरेश्वरः न ते मयि अच्युतेजे चक्षते नात्मनश्च जनस्यामि तर्युष्मान् वयमीमहीं न ह्यं वयानि तीर्थानि ते पुन्पुनन्त्योरुकालेन योऽयं दर्शनमातृतः ब्राह्मणेभ्यो नमस्यामो ये स्मद्रूपं त्रयीमयं बिभ्रत्यात्मसमाधानतपस्वाध्यायसंयमैः श्रवणाद्दर्शनाद्वापि महापात किनोऽपि वां शुद्धेरन्त्यन्त्यजाश्चापि किमु च इति चन्द्रललामस्य धर्मगुर्योपवेशितम् वचो मृताय न ना मृषेर्नातिप्यत कर्णयोऽपिबन् स चिरं मायाविष्णो भ्रामितकर्षितो भृशम् शिववागमृतध्वस्तक्लेशपुञ्जसमब्रवीन् ऋषिर्वाच अहो ईश्वरलीलेयम् दुर्विभाव्या शरीरिणाम् यन्नमन्ति श्रुतव्यानि सुवन्ति जगदीश्वराः धर्मं ग्राह्यतुं प्रायः प्रवक्तारस्य देशिनाम् आचरन्त्य अनुमोदन्ते क्रियमाणं सुवन्ति च नैतावता भगवत सुमायामे वृत्तिभि न दुःस्येतानुभावस्ते मायिनकुकं यथा श्रेष्ठवेदं मनसा विश्वमात्मना नो प्रविश्य गुणैः कुर्वद्भिराभाती करतेव स्वप्नते तस्मै नभो भगवते त्रिगुणाय गुणात्मने केवलाय द्वितीयाय गुरुवे ब्रह्ममुरुतये कमृणेनोपरं भूमन्वरं तद्वरदर्शनात् दर्शनात। यद्दर्शनात् पुण्यकाम सत्यकाम पुमान् भवेत् वर्मे कम्बोऽध्वापि पूर्णात् कामाभिवर्षणात् भगवत्यच्युतां भक्तिं तत्परे शोतथा त्वयि शोतुवाच इत्यर्चिञ्चितोऽभीष्टोऽन्तश्च मुनिना सुक्तां सुक्तया गिरां तमाह भगवाः सर्वया चाभिनन्दितः आमो महर्षे सर्वोयं भक्तिमान् त्वमधोक्षजे आकल्पान्ताज स पुण्यम् तथा ज्ञानं त्रैलां त्रैकालिकं ब्रह्मण् विज्ञानं च विरक्तिमन् ब्रह्मवर्चस्विनो भूयात्पुराणाचारितासुते श्रुत्वाच एवं वरान् स मुनिये दत्त्वा गात्रक्ष देव्यैतत्कर्मकथयन्ननुभूतं पुरामुना सोऽप्यवाप्तमहायोगम् महिमा भार्गभूतमः विचरन्त्यधुनाप्यब्धा हरावेकान्ततां गतः अनुवर्णितमेतत्ते मार्कण्डेयस्य धीमतः अनुभूतं भगवतो एतद्येचिद्विद्वांसो माया संस्कृतमात्मनः अनाद्यावर्तितम् नृणाम् कादाचित्कम् प्रचक्षते य एवमेतद्भृगुवर्यवर्णितम् रथाङ्गपाणेरनुभावभावितम् संस्रावये सृणुम् शृणुयान्तम् तावभो तयो न कर्मा स इति श्रीमद्भागवते महाप्राणे पारहिंसां चयितायां द्वादशस्कन्धे दशमोऽध्यायः